मुद्गलपुराणं खण्डम् एय् धूम्रवर्णचरितम् अध्यायम् सेवन् अहङ्कारशान्तिरूपवर्णनम् श्रीगणेशाय नमः शिव उवाच शुक्रस्य वचनं श्रुत्वा अहङ्कारस्थं प्रणम्य जगादज्ञानसंयुक्तकृताञ्जलिः प्रतापवान् अहमुवाच त्वयाहं बोधितो नाथादो गच्छामि गजाननं सुरासुरमयं ब्रह्म सर्वशान्तिप्रदायकम् एवमुक्त्वा स शुक्रेण संयुधः परमार्थविद श्रियोङ्काराभ्याम् महकृष्य योगेशं शरणं ययौ पुरप्रान्ते महापाशं दृष्ट्वा नम्यकृताञ्जलिः तुष्टाव शस्त्रराजंस गणेशाहङ्कृतेर्धरः अहमुवाच पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे मोक्षरूपाय वैतुभ्यं गणेश करभूषण मोहो मायामय मायामयप्रोक्तो बन्धदः सर्वजन्तवे गणेश ज्ञानयुक्तश्चेत् बन्धहीनो नरो भवेद तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः त्वमेव पाशरूपं वै बन्धमोक्षकरं महद ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयं नास्ति शस्त्रच मां शरणागदमादराद नमस्ते तेजसां नाथ दुष्टनाशकराय पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः एवं स्तुत्वा महापाश्यं प्रणनामकृताञ्जलिः अहङ्कारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं व्ययौ इदं स्तोत्रम् पढ़ेस्तु तय बंधो विनश्य मयापय साक्षा गणेशे स सा। लभेद्गति गाश विलोक्यवाहंगारो गुरणयुध धूम्रवर्णम जगामासौ तं दृष्ट प्रणना पुनरुद्धाय विघ्नेश पूजयामास भक् पुनः प्रणम्य सर्वेशेषं तुष्ट वस कृता अहम वैतुभ्यं धूम्रवर्णा परात्मने गणेशा परात्मे अव्यक्तायादिबीजा नमो नम लम्बोदराय देवाय दैत्यनाथाय ते नमः हे रम्भाय महेशानां पालकाय नमो नमः कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय थ्याना वै नमः चराय चररूपाय जङ्गमस्तायते नमः स्थावराय सदा तद्रूपाय तद्रूपधारिणे स्थावरजङ्गमाभ्यां च हीनायते नमो नमः योगाय योगनाधाय योगिने योगदायिने योगेभ्यो योगदात्रे नमश्चिंता नम शय शांचित शांदमूर्त शांदा ब्रह्मण पद हेतुभ्यं ब्रमणे सिद्धिबुद्धिद सिद्धिनाथा बुद्धिश तो योगगाय नम मूषकोपरि संस्थाय मूषकध्वजधारिणे चतुर्भुजाय स्वानन्दपदयेते नमो नमः किं स्तौमि त्वां गणाधीश्य अव्यक्तं वेदवादेषु कथितं सततं प्रभो स्वरूपं ते कथयितुं वेदा धूम्रायिदा बभुः योगशान्तिधरास्ते कथयितुं ध्रुवमक्षमाः अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः पश्यामि तं धूम्रवर्णमेवाहं योगिदुर्लभं धन्योऽहम् सकुलो नादत्वदङ्घ्रियुगदर्शनाद यवमुक्त्वा ननर्तास्सौ भक्तियुक्तो महासुरह निमग्नं तं भक्तिरस्ये दृष्ट्वा देवो गजाननः जगादतं महाभागं प्रेमयुक्तं प्रसस्वजे धूम्रवर्ण उवाच वरान् वृणुमहाभाग दास्यामि स्तोत्रतोषितः अहङ्कार न सन्देहो न भयम् ते भविष्यदि त्वया कृतमिदं स्तोत्रम् सर्वसिद्धिप्रदायकं मम भक्तिप्रदं चैव भविष्यदि न संशयः शृणुयाढ्यः पठे दे दत्तस्याहङ्कारजम् भयम् न भविष्यदि दैत्येश भुक्तिमुक्तिप्रदं भवेद् यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः मम प्रियो भवेत्सोऽपि सदा मोहविवर्जितः एवं गणेशवाक्यं स श्रुत्वा दं शब्रवीदहं धूम्रवर्णं महासुरः अहमुवाच यदि मे वरदोऽस्तित्वं धूम्रवर्णगजानन तदा ते पदपद्मे वैभक्तिं देहि परां विभो गाणपत्यं कुरुष्वत्वं मां गणेशपरायणं गाणपत्यप्रियं ताद सदा सद्भावभाविकं स्थानं देहि तथा वृत्तिम् योगक्षेमकरीम्परां तत्रस्थस्त्वाम् भविष्यामि दासोऽहं ते गजानन नान्यं याजे कदा नादःश्रियोऽङ्कारामोऽहमोहिदं सिद्धिबुद्धियुदं त्वाहं भजिष्यामि विशेषदः बोधितो गुरुणात्यन्तं तस्य वाक्यपरायणः योगशान्तिमयं रूपं भजिष्यामि महोदर धूम्रवर्ण उवाच मयि भक्तिर्दृढा तेस्तु मयि दास्यपरायणः गणपत्यप्रियो भूत्वा चरिष्यसि यत्रादौमे संशयः यत्रादौ महादैत्यपूजनं नैव विद्यते तत्र कर्मसुते स्थानं भुङ्क्ष्व कर्मफलं महद कार्यादौ स्मरणमेन तत्र त्वं सुस्थिरो भव आसुरेण स्वभावेन भ्रंशयस्वनिरन्तरं स्वपुरे गच्छ दैत्येन्द्र मद्भक्तान् रक्ष सर्वदा मदहङ्कृति संयुक्तान् गुरुत्वं नित्यमादराद यत्र मे स्मरणं चादौ पूजनं सर्वकर्मसु तत्र साधुस्वभावेन वर्तस्व तदहङ्कृतिः गणेशभक्तिसंयुक्तो मदीयाहङ्कृतेर्धरः भविष्यसि न सन्देहो गच्छ गच्छ मदाज्ञया श्रीशिव उवाच एवमुक्त्वा गणाधीशस्तमहं विररामहै प्रणम्य तमहङ्कारः ययौ स्वनगरं मुदा तादृशं तं परिज्ञाय दैत्ये स दुःखसंयुताः त्यक्त्वा पादालगा सर्वे बभूवुर्भयविह्वलाः स एव सुखसंयुक्तो भजत्तं गणनायकम् अनन्यमनसा ध्यात्वा धूम्रवर्णधरं परं यथा जगादविघ्नेशस्तथा चकारभावतः अहङ्कार सुरश्चैव शान्दरूपो बभूवः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्माौद्गले महापुराणे अष्ट खंडे धूम्रवर्णचरि अहंकार शादीर्णन नाम सप्तमोध्याय ओ